श्रीहर्ये नमः एकादशस्कन्धः अथ प्रथमोऽध्यायः श्रीभातरायणिरुवाच कृत्वा दैत्यवतं कृष्ण सारामो यदुभव्रतः भुभोवधारयद्भरं जविष्टं जनयन् कलिं ये पाण्डुसुतासपत्नैर्दुर्युतहेलनकच ग्रहणादिभिस्तान् कृत्वा निमित्तम् इतरेत तमेतान् हत्वा नृपान्निरहरक्षिदि भारमीसह भोभारराजपृतनायदुभिर्निरस्य गुप्तैस्वबाहुभि अचिन्तयत प्रमेयः मन्ये वनेर्ननुगतोऽप्यगतं हि भारं मत्संशयस्य विभवोन्नहनस्य नित्यम् अन्तः यदुकुलस्य विधाय सम्भस्य वग्निमिव शान्तिमुपैमिधाम एवं व्यवसितो राजन् सत्सङ्कल्प ईश्वरः सा भव्यो स्वमूर्त्यालोकलावण्य निर्मुक्त्यालोचनं नृणां गीर्भिस्ता चित्तम् मदैस्तानी क्षधां क्रियाः आच्छिद्यकीर्तिं सुश्लोकां वितत्य यज्ञसानुघौ तमो नयादरिष्यन्ती त्यगात् राजोवाच ब्रह्मण्यानां वदान्यानां नित्यं वृत्तोबसेविनां विप्रसाभकथमभूद्वृष्णीनां कृष्णचेतसां यन्निमित्तः स वैशाभो यातृशो द्विजसत्तमं कथमेकात्मनाम्भेत एतत् सर्वं वदस्व मे श्रीसुख उवाच बिभ्रत्वपुस्तकलसुन्दरः सन्निवेशं कर्माचरन् भुवि सुमङ्गलमाप्तकामः आस्थायदाम रममाण उदारकीर्ते संहर्तुम् ऐश्चतकुलं स्थितकृत्य शेषः कर्माणि पुण्यनिवहानि कलिमधाबहराणि कृत्वा कालात्मनानि वसता यदुदेवगेहे पिण्डारकं समगमन्मुनयो निसृष्टाः विश्वामित्रोऽसितः कण्वो दुर्वासा भृकु अङ्गिराः कश्यपो वाम देवोद्रेर्वसिष्ठो नारदादयः क्रीडन्तस्तान्बुभव्रज कुमारायधुनन्दनाः उपसङ्गृह्यपप्रच्छो अविनीता विनीतवत् ते वेषयित्वा श्रीवेषे साभं जाम्भवति सुतं एषा भृच्छति वो विप्र अन्तर्वसितेक्षणं विलज्जति साक्षात् प्रभ्रूत अभोगदर्शनाः प्रसोष्यन्ती पुत्रकामाः किं स्वित्सञ्जनयिष्यति एवं प्रलब्धा मुनयधानुचु कुपिता नृप जनयिष्यति वो मन्धा मुसलं कुलनाशनं तच्छ्रुत्वा तेति शन्त्रस्ता विमुच्य सखसोदरं साम्भस्य धतृसोश्चस्मिन् मुसलं कल्वयस्मयम् किं कृतं मन्तभाग्यैर्न किं वदिष्यन्ति नो जनाः इति विक्वलिता घेहान् आदायमुशलं ययुः तच्छोपनीयसदसे परिम्लानमुखश्रियः राज्ञ आवेतयां चक्रो सर्वया तव सन्निधौ श्रुत्वा अमोघं विप्रशाभम् दृष्ट्वा च मुसलं नृप विस्मिता भयसन्त्रस्ता बभोवोर्द्वारकौकशः तच्चूर्णयित्वा मुसलं यधुराजस आहुकः समुद्रसलिले प्रास्यल्लोकं सा श्याभशेषितम् कच्चिन्मत्स्योकृशील्लोकं सुवर्णानि तरलैस्ततः उह्यमानानि वेलायां लग्ना न्यासन् किलैरकाः मत्स्यो गृहीतो मत्थ्यग्ने जाले नान्यै स कार्णवे तस्योधरगतं लोकं ससल्ये लुब्धकोऽकरोद भगवान्यात सर्वार्थ ईश्वरोऽपि तधन्यत कर्तुं नैछत् विप्रशापं कालरूपी अन्वबोधत इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्ते प्रथमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज की जय